गरुडपुराणम् आचारकाण्डम् अध्यायम् 139 अण्ड् तर्टि नैन् हरिरुवाच सूर्यस्य कथितो वंश सोमवंशं शृणुष्वमे नारायणसुतो ब्रह्मा ब्रह्मणोऽत्रे समुद्भवः अत्रे सोमस्तस्य भार्यातारा सुरगुरोः प्रिया सोमातरा बुधं जज्ञे बुध पुत्रः पुरुरवाः बुध पुत्रा दधो वंश्याम् षट्पुत्रास्तु श्रुतात्मकः विश्वा वसुश्चयुश्च आयुर्धो मानमा वसुः अमावसोर्भोम नाम भीमपुत्रश्च काञ्चनः काञ्चनस्य सुहोत्रोऽभूत् जकृश्चाभूत् सुहोत्रदः जक्नो सुमन्दुरभवत् सुमन्दोरपजापकः बलाकाश्वस्तस्य पुत्रो बलाकाश्वात् कुशस्मृदः कुशाश्व कुशनाभश्चामूर्तरयो गाधि कुशाश्वसं ज्ञे विश्वामित्रस्तदात्मजः कन्या सत्यवती दत्ता रुचिका यद्विजा यः सा रुचिगाजमदाग्निश्च रामस्तस्याभवत्सुधः विश्वामित्रा देवराद मधुच्छन्दायध मधुच्छन्दादयः सुधाः आयुषो न कुश्रस्तस्माद्धनेन रजिरम्भकौ क्षत्र वृद्धः क्षत्र वृद्धा सुहोत्रश्चाभवन् नृपः काश्यकाश्यौ वृत्समदः सुहोत्रादभवंस्तयः वृद्ध्रमदाश्चौनको भूत् काश्यादीर्घतमास्तथा वैद्यो धन्वन्तरि तस्मात् केदुमांश्च तदात्मजः भीमरथकेतुमदो दिवो दासस्तदात्मजः दिवो दात् प्रदर्धनशत्रुजित्सोत्रविश्रुतः हृदध्वजस्तस्य पुत्रो ह्यलर्कश्च हृदध्वजाद् अलर्कास्सन्नदिर्जज्ञे सुनीदस्सन्नदे सुदः सत्यके दुःसुनीतस्य सत्यके दुर्विभुः सुदः विभोस्तु सुविभुः पुत्रः सुविभो सुकुमारकः सुकुमाराद्दृष्टके दुर्पोधिहोत्रस्तदात्मजः वीधिहोत्रस्य भर्गो भूद्भर्गभूमिस्तदात्मजः वैष्णवास्युर्महात्मान इत्येदेकाश्यपो नृपाः पञ्चपुत्रशतान्याः सन् रजेशक्रेण संहृदाः प्रतिक्षत्रः क्षत्रवृद्धात् सम् जयश्च विजय संजयस्याभि विजयस्य कृतः सुदः कृत्वाद्वृषधनश्चाभूत् सह देवस्तदात्मजः सह देवादीनोऽभूत् जयत्सेनोऽप्यदीनदः जयत्सेना संकृतिश्चक्षत्रधर्माज संकृतेः यद्धिर्ययादिस् संयादिरयादिर् विकृधिक्रमाद न कुशस्य सुदाख्याद ययादेर्नृपदेस्तथा या यदुं च दुर्वसुम् चैव देवयानी व्यजायद दुह्युम् शानम् च चा पूर्युञ्ज शर्मिष्ठा वार्षपार्वणि सहस्रजीत्क्रोष्ठुमना रघुश्चैव यदो सुदाः सहस्रजिदच्छदजितस्मद्वै हय हैहयौ अनरण्यो हयात्पुत्रो धर्मो हैह यदो भवद धर्मस्य धर्मनेत्रोऽभूत् कुन्देर्वै धर्म नेत्रदः कुन्देर्बभूद सा सञ्जिर्म शिष्मांश्च तदात्मजः भद्रश्रेण्यस्तस्य पुत्रो भद्रश्रेण यस्य दुर्दमः धनको दुर्दमा चैव कृतवीर्यश्च जानकिः कृताग्निकृतकर्मा कृदा च कृतौ जास्सुमहाबलः कृतवीर्यादर्जुनोऽभूदर्जुना चूरसेनकः जयध्वजो मधुचूरो वृषणः पञ्चसव्रताः जयध्वजा तालजङ्घो भरदस्तालजङ्घदः वृषणस्य मधुपुत्रो मधोर्वृष्ण्यादिवंशकः क्रोष्टोर्विजज्ञेर्वान्पुत्र आही तस्य महात्मनः ुशङ्घुः संजज्ञे तस्य चित्ररथः सतः शश बिन्धुश्चित्ररथपत्न्यो लक्षम् च तस्यः दशलक्षम् च पुत्राणाम् पृथु कीर्त्यादयो वराः तत्पुत्रस्य द गुर्नाम श्रीरुक्मकवचस्ततः रुक्मश्च पृथुरुक्मश्च ज्यामकप्पलिदोहरिः श्रीरुक्मकवचस्य इदे विदर्भो ज्यामकात्तदा भार्यायाञ्च शैव्यायां विदर्भात्पृथकौशिकौ रोमपादो रोमपादाद् बभ्रुर्बभ्रोर्दृदिस्तथा कौशिकस्य ऋधिपुत्रः ततश्चैद्यो नृभः किल कुन्धि किलस्य पुत्रोऽभूत्कुन्तेर्वृष्णि सुदस्मृदः वृष्णोश्च निवृतिपुत्रो दशार्हे निवृतेस्तथा दशार्हस्य सुदो व्योमाजीमूतश्च तदात्मजः जीमूताद्विकृतिर्जज्ञे ततो भीमरथो भवेद् ततो मधुरथो जज्ञे शघुनिस्तस्य चात्मजः करम्भिः शगुनि पुत्रस्तस्य वै देववान् स्मृतः देवक्षत्रो देवनदो देवक्षत्रान् मधुस्मृतः कुरुवंशो मधुपुत्रो ह्यनुश्च कुरु वंशतः पुरुहोत्रो ह्यनो पुत्रो ह्यांशुश्च पुरहोत्रतः तत्त्वश्रुतसुधश्चांसोस्तदो वै भजिनो भजमानश्च सत्त्वदा महाभोजा वृष्णि दिव्या वन्यो देवा वृधो भवद निमि वृष्णी भजमानाधयुदाजित्तथैव च शतचित्तसहस्राजिद्ब्रुर्देवो बृहस्पतिः महाभोजात्तु भोजो भूत्तद्वृष्णेश्च सुमत् सुमित्रकः स्वथा जिसञ्ज्ञकस्तस्मादनमित्राशिनी तथा अनमित्रस्य निघ्न अनमित्रस्य निघ्नो भून्निघ्नाच्छत्राजितो भवद प्रसेनश्चपरख्यादो शिबेस्तु सत्यः पुत्रसत्यका सात्यकिस्तधा सात्यके सञ्चयपुत्रः कुलिश्चैव ददात्मजः कुलेर्युगन्धरः पुत्रस्ते शैवेयाः प्रकीर्तिताः अनमित्रान्वये वृष्णिष्वपल्कश्चित्रकः सुतः स्वबल्काश्चैव गान्धिन्यामक्रूरो वैष्णवो भवद उपमद्गुरधाक्रूला देवद्योदस्तदः सुदः देववानुपदेवश्च ह्यक्रूरस्य सुधौ स्मृदौ पृथुर्विपृच्छिदत्रस्य त्वन्थकस्य शुचिस्मृदः पुकुरो भजमानस्य तदा कम्बलबर्हिषः दृष्टस्तु हुकराजज्ञे तस्मात् पापोदरोमकः तदात्मजो विलोमाजविलोम्नस्तुम्भुरु सुतः तस्माच्च दुन्दुभिर्जज्ञे पुनर्वसुरधस्मृदः तस्याहु कश्चाहुगीचकन्या चैवाहु कस्य देव कश्चोग्रसेनश्च देवका मृगदेवोपदेवा च सह देव सुरक्षिता श्रीदेवी शान्तिदेवी च वसुदेव उवाहताः देववानुपदेवश्च सहदेवा देव सुदौ स्मृदौ उग्रसेनस्य कंसोऽभूत् सुनामा च वडादयः विदुरधो भजमाना चोरश्चाभूद्विदुदराध विदुरध सुधस्याद सूरस्याभि शमीषुधः प्रतिक्षत्रश्च शमिनः स्वाह्यम्भोजस्तदात्मजः कृदिगश्च स्वयं भोजात्कृतवर्मा तदात्मजः देवश्च तधनुश्चैव शूराद्वै देवमीढुषः शतपुत्रामादिषायां वसुदेवादयो भवन् पृथा च श्रुतदेवी च श्रुतकीर्तिश्रुतश्रवाः राजाधिदेवोऽशूरा च पृथाम् कुन्दे सुधामदाद सा दत्ता कुन्दिना पाण्डोस्तस्याम् धर्मा युधिष्ठिरो भीमपार्थो पार्थो कुलः सह देवकः माद्राया ना सत्यतस्त्राभ्यां कुन्द्याम् कर्णःपुरा भवद श्रुतदेव्यां दन्तवक्त्रो जज्ञे वै युग्धदुर्मदः सन्दर्दना दहपञ्च श्रुतकीर्त्या कैकयद जज्ञा देविन्दश्चैवानुविन्दकः श्रुतश्रवादमघोषात् प्रजज्ञे शिशुः पालकम् पौरवी रोहिणी भार्या मदिरानकदुन्दुभेः देवकी प्रमुखा भद्रा रोहिण्यां बलभद्रकः सारणाद्या षडश्चैव रेवत्यां निचडश्चोल्मुखो जादो देवक्यां षट् च जज्ञि ए कीर्तिमांश्च सुषेणश्च क्युदार्यो भद्रसेनकः ऋजुदासो भद्रदेवकंस ये वा वधीच तान् सम्कर्षणः सप्तमो भूदष्टमकृष्ण एव च भार्याणाम् चाभवन् हरेखे रुक्मिणी सत्यभामा च लक्ष्मणा चाजुहासिनी श्रेष्ठा जाम्बवती चाष्टौ जज्ञिरेतासुतान् बहून् प्रद्युम्नश्चाजुधिष्णश्च प्रधाना साम्ब एव च प्रद्युम्नादनिरुद्धोऽभूत् भगुत्मिन्याम् महाबलः अनिरुद्धात् सुभद्रायां वज्रो नाम नृपो भवद प्रतिबाहुर्वज्रसुधश्चारुतस्य सुतो भवद वह्निस्तु दुर्वसोर्वंशे वह्ने भर्गो भवत्सुधः भर्गाद्भानुरभूत्पुत्रो भानो पुत्रः करन्दमः निबोधमे द्रह्योस्तु तन यस्य दुरारब्धश्च तदात्मजः आरब्धस्यैव गान्धारो कर्मो गान्धारदो भवद कृदस्तु कर्मपुत्रोऽभूत् दुर्गमश्च कृस्य प्रचेदा दुर्गमस्यैव अनोर्वंशं शृणुष्व अनोसभा नरपुत्रस्तस्मात् कालञ्जयो भवद कालञ्जया सृञ्जयो भूसृञ्जया तु भुरञ्जयः जनमे जयस्तु तत्पुत्रो महाशालस्तदात्मजः महामना महाशालदुषी नर इह स्मृदः अशी नराशिभिर्जज्ञे वृषदर्भशिवे सुतः पुत्रो पुत्रोऽभूच ऋषद्रवः हेमोरुषद्रधाजज्ञे सुतपा हेमदो भवद बलिसुतपसो जज्ञे ह्यङ्गवङ्गकलिङ्गकाः अन्धप्र अन्धपैण्ड्रश्च बालेयाह्यनपानस्तदाङ्गदः अनपानादिविरथस्तदो धर्मरथो भवद रोमपादो धर्मरथातुरङ्गस्तदात्मजः पृथुलाक्षस्तस्य पुत्रश्चम्भोऽभूत् पृथुलाक्षदः चम्बपुत्रश्च पर्यङ्गस्तस्य भद्ररथस् सुदः बृहत्कर्म सुधस्तस्य बृहद्भानुस्तदो भवत् बहुन्मना बृहद्भानोस्तस्य पुत्रो जयद्रथः जयद्रथस्य विजयो विजयस्य धृति सुधः धृतेर्धृ सत्यधर्म धृतव्रतात् तस्य पुत्रस्त्वधिरधः कर्णस्तस्य सुतोऽभवद वृषसेनस्तु इति श्रीकारूडे महापुराणे आचारकाण्डे चन्द्रवंशवर्णनम् नामैकोनचत्वारिंशत् उत्तरशततमोऽध्यायः ओम् अध्यायम् हण्ड्रेड् अण्ड् फोर्टी हरिरुवाच जनमे जयपुरोश्चाभून्नमस्युर्जनमे जयाद तस्य पुत्रश्चा भयदसुद्ध्युश्च भयदादभूत सुद्योर्बहु गतिपुत्रः सञ्जादिस्तस्य चात्मजः वत्सजादिश्च रौद्राश्व तदात्मजः ऋतेयुस्तण्डिलेयुश्च कक्षेयुश्च कृते युगः जलेयुः सन्ततेयुश्च रौद्राश्वस्य सुदावराः हृदिनारहृतेयोश्च तस्य प्रतिरथः सुतः तस्य मेधातिधिपुत्रस्तत्पुत्रश्चैनीलस्मृदः अयिनीलस्य दुदुष्यन्तो भरतस्तस्य चात्मजः शकुन्तलायां सम्पज्ञे विदधो भरदादभूद विदधस्य सुदो मन्युर्मन्योश्चैव नरस्मृदः नरस्य संहृति पुत्रो गर्गो वै संहृते सुदः गर्गादमन्युपुत्रो वै शिनिपुत्रो व्यजायद मन्युः पुत्रान् महावीर्या सुदो भवदुरुक्षयः उरुक्षयात्रय्यारुनिर्व्यूहक्षत्राच्च मन्युजाद सुहोत्रस्तस्य हस्ती च अजमेडद्विमीठकौ अस्ति न पुरुमीठश्च कण्वो भूदजमीठः कणवा मेधातिधिर्जज्ञे यथ कण्वायना द्विजाः अजमीढाद् बृहद्दिशोस्तत्पुत्रश्च बृहद्धनुः बृहत्कर्मा तस्य पुत्रस्तस्य पुत्रो जयद्रदः जयद्रदाद्विश्वजिच्च सेन जिच्च तदात्मजः रुचिराश्वसेन जिद पृधु सेनस्तदात्मजः पारक्तु पृथु सेनस्य पराद्वीपो विभ्राजस्वृदे पुत्रो विभ्राजा दश्वहो भवद कृत्या तस्मात् ब्रह्म दत्तो विश्वक्सेनस्तदात्मजः यविनरो द्विमीठस्य धृदिवांश्च यविनरद दधि मदसत्यधृतिर्दृढनेमिस्तदात्मजः दृढनेमे सुपार्श्वो भूत्सुपार्श्वा सन्नधिस्तथा कृस्तु सन्नधे पुत्र युधो भवद उग्रायुधा च क्षेम्यौ भूत् सुधीरस्तु तदात्मजः पुरम् च यः सुधीरा पुत्रो विदूरथः अजमेदान्न्याञ्च नीलो नाम नृपो भवद नीला चान्दिरभूत्पुत्रस्तु शान्तिस्तस्य दुःशान्तेश्च पुरुर्जातो ह्यर्कस्तस्य सुतो भवद अर्कस्य चैव हर्यश्वो हर्यश्वान् मुकुलो भवद यह्वीनरो बृहद्भानुकम् बिल्लसृञ्जयस्तथा पाञ्चालान् मुकुलाजज्ञे शरद्वान् वैष्णवो महान् दिवो दासो द्वितीयोस्य ह्यः कल्यायां शरद्वदः शदानन्दो भवत्पुत्रस्तस्य सत्यधृतिः सदः कृपकृपि सत्यधृतेरुवश्यां वीर्यहानिदः द्रोणपत्नी कृपि जज्ञे अश्वद्धामानमुत्तमं दिवो दासान्मित्रयुश्च मित्रयोश्च वनो भवद सुदासस्य वनाज्जज्ञे सौदासस्तस्य जात्मजः सह देवस्तस्य पुत्रः सह महान् पृषताद्रुपदो जज्ञे दृष्टद्युम्नस्तदो भवद दृष्टद्युम्न दृष्टके वृक्षात् संवरणो जज्ञे गुरुः संवरणादभूद सुधनुश्च पीक्षिश्च जग्नुश्चैव गुरोः सुताः सुधनुष सुहोत्रो भूत् बृषद्रथश्च प्रत्यग्रसत्याद्याश्च वसो सुधाः बृषद्रथात् कुशाग्रश्च कुशाग्रादृषभो भवद वृषभात् पुष्पवांस्तस्माजज्ञे सत्यहितो नृपः बहुद्रधात् जरासन्दः सह देवस्तदात्मजः सह देवाच्च जसोमापि सोमपि जनमे जयस्तदान्यो भूजह्नोस्तु सुरधो भवद विदूरधस्तु सुरधाः सर्वभौमो विदूरदाद जयसेन सार्वभौमादवधितस्तदात्मजः अयुतायुस्तस्य पुत्रस्तस्य चाक्रोधनः सुतः अक्रोधनस्याधिथश्च वृक्षोऽभूदधिथे सुतः वृक्षा च भीमसेनोऽभूद्दिलीपो भीमसेनदः प्रदीपोऽभूद् दिलीपा च प्रदीपदः चन्दनुश्चैव बाह्लीकस्त्रायस्ते भ्रादरो नृपाः बाह्लीकासोमदत्तो भुद्भूरि भूरिश्रवास्तदः शलश्च चन्दनोर्भोष्मो गङ्गायां धर्मिको महान् चित्राङ्गदविचित्रौ दु सत्यवत्यान्दुचन्दनोः भार्ये विचित्रविर्यस्य त्वम्बिकाम् बालिके धृतराष्ट्रम् च पाण्डुम् च तद्दास्यम् विदुरन्धधा व्यास उत्पादयामास गान्धारी धृतराष्ट्रतः शतपुत्रम् दुर्योधनाद्यम् पाण्डोः पञ्च प्रचत्नीरे प्रदिध्यश्रुतसोमश्रुतकीर्तिस्तथार्जुनाद स्वतानेकश्रुतकर्मा द्रौपद्यां पञ्चवैक्रमाद यौधेयी च हिडिम्पाजकौशी चैव सुभद्रिका विजया वैरेणुमदी पञ्चभ्यस्तु सुधाक्रमाद देवको कचोत्कच्च ह्यभिमन्युश्च सर्वगः सुहोत्रो निरमित्रश्च परीक्षिदाभिमन्युजः जनमे जयोस्य ततो भविष्यांश्च नृपां शृणो यदि श्रीवारूढे महापुराणे आचार्यकाण्डे चन्द्रवंशवर्णनं नाम चत्वारिंशदुत्तरशततमोऽध्यायः ओम्